श्रीहरये नमः अथ पञ्चविंशोऽध्यायः श्रीशुक उवाच इन्द्रस्तधात् मनःपूजां विज्ञाय विहतां नृप गोपेभ्यः कृष्णनाधेभ्यो नन्दादिभ्यः शुकोपसहा गणं सां वर्तकं न मे मेघानां चान्तकारिणाम् इन्द्रप्रचोदय वाक्यं चाहे समान्युताम् अहो श्रीमदमाहत्म्यं गोपानां कान्नौकशां कृष्णम् मर्त्यम् उपाश्रित्यये चक्रुर्देवहेलनं या दृटैः कर्ममयै क्रतुभिर्नामनौ निबैः विद्याम् आन्वीक्षिकीं हित्वा वार्णवम् वाचालम् बालिसंस्तब्धमज्ञम् पण्डितमानिनम् कृष्णम् अर्त्यम् उपाश्रित्य गोपा मे चक्रुरप्रियम् येषां श्रियावलिप्तानां कृष्णेन आत्मायितात्मना दुनुत श्रीमतस्तम्भम् पशोन्नयत अहं च ऐरावतं नागमारुह्यानुव्रजे व्रजम् मरुद्गणैर्महावीर्यैर्नन्दगोष्ठजिहांसया श्रीशुक उवाच इत्थं मघवताज्ञप्ता मेघानिर्मुक्तभनाः नन्दगोकुलमासरे पीडयामासुवोजसा विद्योतमाना विद्युद्भिये स्तनन्तस्तनयित् नुभिः तीव्रैर्मरुद्गणैर्नुन्ना ववृक्षोर्जलसर्कराः स्तूणा स्तूला वर्षधारा मुञ्चस्त्वप्रेक्ष्यभीक्ष्णसहा जलौघैप्लाव्यमाना भो न दृश्यत नतोन्नतम् अत्यासारदिवातेन पसवो जातवेपनाः गोपा गोप्यश्च सीतार्ता गोविन्दं शरणं ययुः शिरःस्रुतांश्च कायेन पश्चाद्य आसारपीडिताः वेपमाना भगवत पादमूलम् उपाययुः कृष्णकृष्णमहाभाग द्वन्नाथं गोकुलं प्रभो प्रातुमर्हसि देवान्न कुपितान् भक्तवत्सला शिलावर्षनिपातेन हन्यमानं अचेतनं निरीक्ष भगवान् मेने कुपितेन्द्रकृतं हरिः अपर्वत्युल्भणं वर्षमतिवातं शिलामयं स्वयागे विकतेऽस्माभिः इन्द्रो नाशाय वर्षति तत्र प्रतिविधिं सम्यक् आत्मयोगेन साधये लोके समानिनां मौढ्यात् हरिष्ये श्रीमदं तमः न हि सद्भावयुक्तानां शुराणामीश विस्मयः मद्दो सतां मानभङ्क प्रसमायोपकल्पते तस्मान्नरणं गोष्ठं मन्नाथं गोपाये स्वात्मयोकेन सोऽयं मे व्रत आहितः इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलं दतारलीलया कृष्णश्चत्राकमिव बालकः अता गभगवान् गोपान् हे यतोपजोषं विशत गिरिगर्तं स गोतनाः नत्रासयिकवक्कार्यो मद्धस्थाद्रिनिपातने वातवर्षभयेनालं तत्राणं विहितं शिवः तदा कृष्णास्वासितमानसाः यतावकासं यथावकाशं सधना सव्रजाशोपजीविनः क्षुद्रुर्व्यथां सुखापेषां हित्वा तैर्व्रजवासिभिः भिक्षमाणो भी दत्ता सप्ताकं नाचलत्पधात् कृष्णयोगानुभावं तं निशां गेन्द्रोतिविस्मितः निस्तम्भो भ्रष्टसङ्कल्प स्वामेगान् संयवारय कं व्यभ्रमुदितादित्यं गो वातवर्षं च दारुणं निसां योपरतं गोपान् गोवर्धनतरोब्रवीत् निर्यातत्यज तत्राशं गोपाशस्त्री धनार्भगाः उपारतं वातवर्षम् व्युधप्रायाश्च निम्नगाः ततस्ते निर्ययोर्गोपा स्वमाधाय गो गोधनं सकटोढोपकरणं श्रीबालस्तविरासनैः भगवानपि तं शैलं पूर्ववत्प्रभुः पश्यतां सर्वभूतानां स्थापयामासलीलया तं प्रेमवेगान्निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः गोप्यश्च सस्नेहमपूजयन् मुदा दत्यक्षाधात्भिर्युयुजुः सदा शिवः यशोदारोहिणीनन्दो रामश्च बलिनां वरः कृष्णमालिङ्गयुयुजुराशिष स्नेहकातराः दिवि देवकणासाध्या सिद्धगन्धर्वचारणाः तुष्टुवोर्मुमुच्छुस्तुष्टा पुष्पवर्षाणि पार्थिव सङ्कधुन्धुभयोनेधोर्दिवि देव प्रणोदिताः जगोर्गन्तर्वपतयस्तुम्बुरोप्रमुखान् र ततोऽनुरक्ते पशुपै परिसृतो राजन्स गोष्ठं सफलो व्रजत् हरिः तथा विधान्यस्य कृता निगोपिका गायन्त्ययीयोर्मुदिताकृतिस्पृश इति श्रीमद्भागवते मखापुराणे दशमस्कन्ते पूर्वार्धे पञ्चविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय